षोडशोऽध्यायः श्रीभगवानुवाच अभयम् सत्त्वसंशुद्धिः ूनम् दया भूतेषु अलोनुत्वम् माधवम् क्रीरजापलम् तेजक्षमा धृतिः शौचम् अद्रो दर्पो अभिमानश्च क्रोधः पारुष्यमेव च अज्ञानम् च अभिजातस्य पार्थ सम्पदम् आसुरि प्रोक्तः आसुरं पार्थवेषु प्रवृत्ति जनाः न विदुः आसुराः न शौच्यम् नापी चाचारो न सत्यम् तेषु असत्यम् अप्र नष्ट जात गान् प्रवर्तन्ते अशुचिव्रता चिन्ता अमेया प्रलया उपाश्रिता कामोपभगपरमाविता आशापतर्ब्धा काम क्रोधपरायणाते काम भोगाथ अन्यान अर्थस इदमद्य इदम इदम <द्रावण> मया लब्धम् इमम् प्राप्स्ये मनोरथम् इदमस्ति इदमपि भविष्यति पुनः धनम् असौ मया हतशत्रुः नुष्ये चापरानपि ईश्वरोगम् अहम् भोगी सिद्धोऽगम् बलवा सदृशो मया यक्ष्ये दास्यावि अनेकचित्तविभ्रान्ताः मोघजालसमावृताः प्रसक्ताः कामभोगेषु पतन्ति नरके सम्भाविता स्तब्धाः धनमान मदान्विताः यय ते नामयज्ञैः ते दम्भेन Shri Tala शतघ पुरान् संसारेषु नराधमान् क्षिपामि अजस्रम् अशुभान् त्यजे तमोत्वारी हि त्रिभिहि शास्त्रविधिमुत्सृज्य वर्तते कामकारतः न सिद्धिम् अवाप्नोति न सुखम् न पराम् गतिम् तस्मात् शास्त्रम् प्रमाणम् ते कार्याकार्यव्यवस्थितौ ज्ञात्वा शास्त्रविधानोक्तम् कर्म कर्तुम् इहार्हसि ओम् तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे दैवासुरसंपद्विभागयोगोनाम नाम